ो भवाय भवाय च च रुद्राय रुद्राय च नमः नमः शर्वाय शर्वाय च स पशुपतये पशुपतये च पशुपतय इति पशु पतये च नमः नमो नीलग्रीवाय नीलग्रीवाय च नीलग्रीवायेति नील ग्रीवाय च श्रितिकण्ठाय च श्रितिकण्ठायेति शिचिकण्ठाय च नमः नमःपर्दिने कपर्दिने च स व्यक्तकेशाय व्यक्तकेशाय च व्युक्तकेशाये ते व्युक्त केशाय च नमः नमः सहस्राक्षाय सहस्राक्षाय च सहस्राक्षायेति सहस्र अक्षाय शतधन् वने शतधन् वने च शतधन्वन इति शत धन्वने नमः नवो गिरिशाय गिरिशाय च शिपिविष्टाय शिपिविष्टाय च शिपिविष्टायेति शिपि विष्टाय प्र नमः नमो मेधोष्टमाय मेधोष्टमाय च मेधोष्टमायेति मेधोस्तमाय ेषु मते च इषुमत इतिषु स्वरे च नमो आ ह्रस्वाय च च वामनाय वामनाय च च नमो बृहते बृहते च च वर्षीयसे च स नमः नमो वृद्धाय वृद्धाय च प्रसंरध्वने संरध्वने च समृध्वन इति सम् वृद्धने श नमः नमो अग्रियाय अग्रियाय च स प्रथमाय प्रथमाय च नमः॑ नमः आसवे आशवे च चाधिराय अजिराय च प्र नमः नमः शीघ्रियाय शीघ्रियाय च कृषिभ्याय शिभ्याय च प्र नमः नम ऊर्ण्याय ऊर्ण्याय च ावस्वन्याय अवस्वन्याय अवस्वन्यायेत्यवस्वन्याय च नमः नमः श्रोतस्याय श्रोतस्याय च छद्वीप्याय दीप्याय चेति च